संभाषणसदेश्वटीएं मारच्मास्य मसपत्रिकालमोदिनी राी मालादेवी कथाकार शंभु दक्षिण भारत बड़लारि संस्थान किंचन लघुराज्यम विविधा जयन शिवहाराज शिवाजी बड़लस्थनमें आक्रातवां बारिंस्थान से सेना सेनासामर्थ्यं नाधिकं तथापि पराधीनता न अंगीकृता तेन अतः सहजतया युद्धं प्रवृत्तम् अल्पेन एव प्रयासेन शिवराज शिवराजसैन्यं बळलारिसंस्थानं स्वाधीनम् अकरोत् जयप्राप्तेः अनन्तरं शिवराजः आदिशत् पराजयं प्राप्तवन्तः संस्थानस्य राजा मत्पुरतः उपस्थाप्यताम् इति सैनिकाः एतस्य कारणस्य निवर्तनाय गताः तदा बळलारिसंस्थानं शास्ति स्म राज्ञीमालादेवी सैनिकाः ताम् आदरेण आनीय शिवराजस्य पुरतः उपस्थापितवन्तः शिवराजेन वस्तुस्थितिः ज्ञाता सः तस्याः उपवेशनाय आसनं परिकल्पयन् आर्ये कृपया उपविश्यताम् इति आदरेण न्यवेदयत् तदा क्रुद्धा मालादेवी अवदत् अलम् उपहासेन अस्माकं संस्थानं स्वतन्त्रम् आसीत् किन्तु अस्मदीया सैन्यशक्तिः अत्यल्पा अतः अस्मत्संस्थानेन पराजयः प्राप्तः तथापि अहं तु पराधीनजीवनं न इच्छामि शूरः शूरम् आदरेण पश्येत् इति तु नीतिः अतः मम शौर्यस्य अपमाननं मास्तु मम मरणदण्डनं कार्यताम् न तु पराधीनता आरोप्यताम् इति तदा शिवराजः आसनादुत्थाय आर्ये बळलारिसंस्थानं स्वतन्त्रमासीत् स्वतन्त्रमेव भविष्यति जीजाबायी यथा तथा भवति अपि मम माता एव मातुः सम्पत्तिं को वा पुत्रः वशीकुर्यात् मयि जीवति एतत् न सम्भवेत् बळलारिसंस्थानस्य स्वतन्त्र्यं सगौरवं पुरस्क्रियते मया अज्ञानात् यत् आक्रमणं कृतं तदर्थं क्षमां याचे इति उक्त्वा अग्रे गत्वा अवनम्य पादौ स्पृष्ट्वा मालादेवीं साधनं नमस्कृतवान् शिवराजस्य औदार्यस्य विनयस्य च दर्शनात् मालादेव्याः हृदयं भावनिर्भरं जातं नेत्राभ्याम् आनन्दाश्रूणि आगतानि शिवराज भवतः शौर्यस्य औदार्यस्य च विषये मया बहुधा श्रुतम् आसीत् अद्य प्रत्यक्षं दृष्टं भवतः शौर्यस्य कीर्तिः सर्वासु दिक्षु प्रसृता भवतु बळलारिसंस्थानं भवतः साहाय्यार्थं सर्वदा सज्जं स्थास्यति इति उक्त्वा जयतु शिवमहाराजः इति उद्धोषितवती तदा शिवराजः जयतु मालादेवी जयतु बळलारिसंस्थानम् इति उद्धोषितवान् सभास्थ जर्ष निर्भरा सत उभ अभी जयकार कथा सप्ता